षोडशोऽध्यायः युधिष्ठिर उवाच सम्राड्गुणमभीप्सन्वै युष्मान् स्वार्थपरायणः कथम् प्रहिणुयाम् कृष्ण सोऽहम् केवलसाहसात् भीमार्जुनावभौ नेत्रे मनोमन्ये जनार्दनम् मनश्चक्षुर्विहीनस्य कीदृशम् जीवितम् भवेत् जरासन्धबलम् प्राप्य दुष्पारम् भीमविक्रमम् यमोऽपि न विजेताजौ विचेष्टितम् कथम् जित्वा पुनर्यूयमस्मान् सम्प्रति यास्यथ अस्मिन् स्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते तस्मान्न प्रतिपत्तिस्तु कार्यायुक्ता मता मम यथाहम् विमृशाम्येकस्तत्तावच्छ्रूयताम् सन्न्यासम् रोचये साधु कार्यस्यास्य जनार्दना प्रतिहन्ति मनोमेद्य राजसूयो दुराहरः वैशम्पायन उवाच पार्थः प्राप्य धनुःश्रेष्ठमक्षय्ये च महेषुधि रथम् ध्वजम् सभाम् चैव युधिष्ठिरमभाषत अर्जुन उवाच धनुःश्रम् सरा वीर्यम् पक्षो भूमिर्यशो बलम् प्राप्तमेतन्मया राजन् दुष्प्रापम् यदभीप्सितम् कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः बलेन सदृशम् नास्ति वीर्यम् तु मम रोचते कृतवीर्य कुले जातो निर्वीर्यः किम् करिष्यति निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते क्षत्रियः सर्वशो राजन् यस्य वृत्तिर्द्विषज्जये सर्वैर्गुणैर्विहीनोऽपि वीर्यवान् हि तरे द्विपून् सर्वैरपि गुणैर्युक्तो निर्वीर्यः किम् करिष्यति गुणीभूताः गुणाः सर्वे तिष्ठन्ति हि पराक्रमे जयस्य हेतुः सिद्धिर्हि कर्मदैवम् च क्षीयते सबलो दैन्यम् यथा बलवती तथा मोहो बलान्विते तावुभौ नाशकौ हेतु जयार्थिना जरासन्धविनाशम् च राज्ञाम् च परिरक्षणम् यदि कुर्याम यज्ञार्थम् किम् ततः परमम् भवेत् अनारम्भे हि नयतो भवेदगुणनिश्चयः गुणा निःसंसयाद्राजन् नैर्गुण्यम् मन्यसे कथम् काषायम् सुलभम् पश्चान्मुनीनाम् सममिच्छताम् साम्राज्यन्तु तु भवेच्छक्यम् वयम् योत्स्यामहे परान इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासन्धवधमन्त्रणे षोडशोऽध्यायः